मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं फिफ्टिवन् सनत्कुमारदेवसमागमम् श्रीगणेशाय नमः गृत्समद उवाच शृणुप्रह्लाददैत्यस्य चेष्टिदं परमाद्भुतं मदासुरस्य सर्वं यन्मदमोहकरं महद तदकियदिकाले सगदे दुष्टाैर्महासुरः बभौ परिवृदो दैत्याैर्महाबलपराक्रमैः तत्र तं त्रिपुरो दुष्ट उक्तवान् दैत्यपैः सह कृताञ्जलिपुडो भूत्वा वचनं साहसं खलः त्रिपुर उवाच शृणुप्रभो महाराजदैत्यानां हितकारकं वचनं सुखदं साध्यमखण्डानन्ददायकं जित्वा त्रिभुवनं पूर्वे दैत्या सन्तोषमाययुः हिरण्य कश्यपुस्तत्राद्यो महान् परमद्युदिः मृत्युभीदिविहीनोऽयमानन्देन समावृतः अकिलं बुभुजे राज्यं त्रिलोकस्य न संशयः वने गिरिगुहासंस्थादेवाश्चत्मप्रदर्शिनः शत्रवस्तत्र कालेन ससृजो नरसिंहकम् नृसिंहेन कदो नूनं हिरण्यकशिपुः प्रभुः एवं क्रमेण श्रेष्ठा ये देहदा दैत्यपाक्रमाद अधुना त्वं तथा जातो ब्रह्माण्डाधिपतिस्वयं देवानमुक्त्वा महाराज किं विचारय अस्माकं शत्रवो नित्यं देवा वेदे प्रदिष्टिताः, कथं मित्राणि ते राजन्भविष्यन्ति वद प्रभो अतस्तेषां विनाशाय यतस्वनृपसत्तम नो चेत् त्वां कालयोगेन हनिष्यन्ति न संशयः शस्त्रास्त्राय पीडितादेवा न मरिष्यन्ति कर्हि अमरा कथिता वेदे कोररूपा न संशयः तेषां मरणमत्युग्रं वेदे पश्य प्रतिष्ठितं कर्म नाशात् भवेत् पूर्णं कर्मान्ना देवता यतः तस्मात् कर्म करा विप्रास्ताडनीयान् संशयः आसुरं कर्म कुर्वन्तो मन्दव्यास्ते निशम् अन्ये वर्णाश्रमस्थाये ब्राह्मणा कर्मकारकाः नष्टेषु विप्रजादेशु सर्वे नष्टा भवन्ति ते अथ आज्ञापयप्राज्ञा असुरान् कर्मखण्डने सर्वत्रासुरभावेन कर्म सर्वं प्रवर्तताम् एवमुक्त्वा महा दैत्यं भावेन संस्थितम् सदसि त्रिपुरं वीक्ष्य मदासुरः मदासुर उवाच समीचीनं त्वया प्रोक्तमसि त्रिपुरबुद्धिमान् यादृशं कथितं वाक्यं तादृशं कुरु दैत्यपैः ततो दैत्यगणैर्युक्तस्त्रिपुरो निर्गतो सुरः पृथिव्यां यत्र तत्रापि कर्म खंडनको बवद धृता मुनिगणस्तेन ताड़िदीद बहु केजितादाजया युक्ता संस्थित कर्मदूषका केचि मुनिगणादुष्ट शयस्तिनों भूत संस्थित ब्राह्मणमा केजिच्च दुद्रुवुस्त वनेषु ब्राह्मणाभयाद तत्र स्थिता स्वधर्मस्थं कर्मचक्रोर्गतज्वराः सिंहादिभयमुत्सृज्य मरणे कृतनिश्चयाः सिंहादीनां समीपस्था हवसन् कर्मसिद्धये एवं द्विजास्तिदास्तत्र न दैत्यपेनते। कर्मभ्रष्टा स्वभावेन ब्राह्मणा बहवो भवन् तीर्थानि यज्ञवृक्षाश्च देवतायतनानि ते बभोर्दैत्यचाराश्च यत्र तत्रासुरेश्वर आसुरं कर्म सर्वत्र स्थापितं त्रिपुरेण च वर्णेषु ब्राह्मणाद्येषु दुष्टसङ्करकारकं तदोहा करोत्सर्वं जगत्तेन दुरात्मना स्वधर्मवर्जितं दुःखातं दुष्टप्रपीडितं न स्वाहा नवषत्कारो तेन देवगण सर्वे दैत्यस्य वधकाङ्क्षिणः उपेशनैश्च संयुक्ता जाताकालेन देववाः सगणाः परिवारणनिस्तेजस्का बभूवि रे ततो देवगणः सर्वे दैत्यस्य वधकाङ्क्षिणः मिलितास्तत्र चोपायं लेभिरेण वधस्य च सनत्कुमारश्च महायोगी तत्रा दाराद्ययौ सहसा भाग्ययोगेन सर्वेषां हितकारकः तं देवपासर्वे देवपाः समुत्तस्तु प्रणम्यदं पूजया मासुरत्यन्तमुपचारैर्मनोहरैः कन्दमूलादिकं तत्र निवेद्य च सुभकृतः पप्रचुस्तं मदस्यैदे मरणोपायमञ्जसा देवाऊजुः धन्यं जन्मतपो विद्या ज्ञानं देहाश्च पूर्वजाः तवाङ्घ्रि दर्शनाद्योगिन् कृतकृत्या वयं ततः मदासुरेण बलिना जिदा सर्वे महामुने अतस्तस्य वदार्थं नो वधोपायं महामदे साधवो देवताभिप्राः पीडितास्तेन योगिप अतः साध्वादिरक्षार्थम् वद सर्वज्ञदे नमः समशीलो भवान साक्षान् मूर्तं ब्रह्मे वसंस्थितः तथापि दोषसंयुक्तमेकं हन्ता भवप्रभो अतिदुष्टमनादृत्य जगत्सर्वं सुखी नखत्वा त्वं स्वयं साक्षान् मार्गदर्शी भवस्वनः साधवसमशीलाश्च मार्गम् सन्दर्शयन्ति ते दीनानाम् धर्मनिष्ठानामनाधानाम् महामुने सत्कर्मनिरदान् जन्तून् सदा कुर्वन्ति साधवः विकर्मणश्च संहारस्तत्र सञ्जायते यथा न सा महायोगिन् विकर्महितकारिका भवज्ञानेन ना चाज्ञानं नाशयन्ति सुसाधवः अतस्त्वं वद नासार्धमुपायं करवामहै धर्मसंस्थापनार्थं तं धर्मान्नाश्च वयं यदः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन् मौद्गले महापुराणे द्वीए खंडेकचरि सनत्कुमो नाइक पंचाश्त ओं